पादपाठम् इन्द्रशुद्धोन आगहि शुद्धशुद्धाभिरूतिभिः शुद्धो रयिन्निधारय शुद्धोमद्धिसोम्य इन्द्रशुद्धोन आगहि शुद्धशुद्धाभिरूतिभिः शुद्धो रयिन्निधारय शुद्धोमद्धि सोम्य इन्द्रशुद्धो आगहि शुद्धः शुद्धाभिरूतिभिः शुद्धो रयिन्निधारय शुद्धो ममद्धि सोम्य